अहम् रुद्रे रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदे एवैः अहम् मित्रावरुणोभा बिभर्म्यहविन्द्राग्नी अहमश्विनोभा अहम् सोमवाहनसम् बिभर्म्यहन्त्वष्टा आरभूतपूषणम्भगम् अहम् दधा भित्रबिडम्हविष्पते सुप्राव्ये एगजबानाय सुन्वते अहम् राष्ट्री सङ्गमनीवसो ऊनाञ्चिकितृषी प्रथमा जज्ञिजानाम् आदेवाव्यदधुः पुरुत्रा भूरिस्थात्राम् भूर्या आवेशजन्तिम् मयासो अन्नमत्तिजो विपश्यति गः प्राणितिग अमन्तवो मान्त उपक्षिगन्ति श्रुधिः श्रुतः अहमेव स्वजमिदम् वदाभिजुष्टन् देवेभिरुतमारुषेभिः यङ्काभजेतन्त मुग्रम् कृडोभितम् ब्रह्माणन्तमृषिन्तम् सुमेधा अहम् अहम् जना आगसमदम् गृणोम्यहन्त्यावा आपृथिवी आविवेश अहम् सुबे पितरमस्य मूर्धन्वमजो निरप्स्वा अन्तः समुद्रे ततो वि तिष्ठे भुवनानुविश्वोतामून्द्याम् वर्ष्मणोपस्पृशामि अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विस्मा परो दिवा पर एना पृथिव्यैतावती महिना सम्बभूव ॐ शान्तिश्शान्तिश्शान्तिः